अम्बदावद् दशकम् वत्सासुरवतम् तरलमधुकृद्वृन्दे वृन्दावनेत मनोहरे पशुभशिशुविसागम् वत्सानुपालनलोलुपा हलदरस गोदेव श्रीमन्विचेरितदारयन् गवलमुरलिवेत्रम् नेत्राभिरामत्तनुद्युती विहितजगती रक्षम् लक्ष्मीकराम्बुजलालितम् ददति चरणद्वन्द्वम् बृन्दावने त्वयि पावने किमिव न भवौ सम्पत् सम्पूरितम् तरुवल्लरी सलीलधरणि गोत्र क्षेत्रकं कम कमलापते विलस दुबे का समीरणशीतले विपुल यमुना ती गोवर्धनाचलमूर्धसु ललित मुरलीद सञ्चारयन् खलु वात्सकम् क्वचन दिवसे दैत्यम् वत्साकृतिम् द्वमुदैक्षताम् रबसविलसत् पुच्छम् इच्छायतोऽस्य विलोकयन् मदचरेण बिब्रद् विप्रामयन्मुहुरुच्चकैः गुहचनमहावृषे शिक्षेपितक्षतजीवितम् निपतति महा दैत्ये जात्या दुरात्मनि तत्क्षणम् निपतन जव शोण्ण शोणिरुहक्षतकानने दिवि परिमिलत् बृन्दा बृन्तारका कुसुमोत्करै शिरसि भवतो हर्षात् वर्षन्ती नाम तदाहरे सुरपिलतमामूर्द्यन्यूर्ध्वम् कुत कुसुमावली निपतति तवेत्युक्तो बालैः सकेलमुदैरय झटिति तनुजक्षेब नोर्ध्वम् गतस्तरुमण्डलात् कुसुमनिकरसोऽयम् नूनम् समेदी च क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनया पात पातुम् गता भवदातया चलितगरुदम् प्रेक्षा मासूर्बकम् खलु विस्मृतम् क्षिदिदरगरुश्चेदे कैलासशैलमिवा परम् विपति सलिलम् गोप रादे भवन्तमभिद्रुत किल नि किल अग्ने प्रत्यम् पुनर्दृतमुत्तमम् कोट्या तथा भवान् विभो कलजनविदा सञ्चुत्सञ्चो प्रक्रियदतारथम् सबदि सगजाम् सन्द्रष्टुम् वा मृदाम् खलु अनुजमगयमभ्यग्रे गत्वा प्रतीक्षितुमेव वा चमननिलयम् याते तस्मिन् भगे सुमनो गणे किरति सुमनो बृन्दम् बृन्दावनाद्गृहमयत ललितमुरलीनाथम् दूरान्निशम्य वधूजनै त्वरितमुगम्याराधय आरूटमोतमुदीक्षित जनित जनितजननीनन्दानन्द समीरणमन्दिर प्रदित वसते शौरे दूरीकुरुष्व ममामया हरे राम हरे राम राम राम हरे हरे